श्रीहरये नमः अत अष्टमोऽध्यायः नारत उवाच अत दैत्यसुता सर्वे श्रुत्वा तदनुवर्णितं जगृहोर्निरवत्यद्वात् नैव गुर्वनुशिषितम् अथ आचार्यसुतस्तेषां बुद्धिमेकान्तसंस्थिताम् आलक्ष्यभीतस्त्वरितो राज्ञ आ आवेद्य यत्यत श्रुत्वा तदप्रियं दैत्यो दुःसखन्तनयानयं कोपावेश पुत्रं हन्तु मनो दधे क्षित्वा परुषया वाच प्रह्लादम् अथ ने ने धांतं हे क्षमाणः पापेन तिरश्चीनेन चक्षुषा प्रस्रयावनतं दान्तं बद्धाञ्जलिम् अवस्थितं सर्पधाहत इव सश्वन् प्रकृतिधारुणः हे दुर्विनीतमन्धात्मन् कुलभेतकराधमा स्तब्धं मच्छासनोद्धूतं नेष्ये त्वाध्ययमक्षयं क्रुद्धस्य यस्य त्रयो लोकासहेश्वरः तस्य मे भीतवन्मूढ सासनं किं भलोत्यघाः प्रह्लातौ उवाच न केवलं मे भवतश्च राजन् स वै बलं बलिनां चापरेषां परे स्थिरजङ्गमाये प्रमादयो येन वसम्प्रणीताः स ईश्वरकाल उरुक्रमोस स एव विश्वं परमस्वशक्तिभिः सृजत्यवत्यन्ति गुणत्रयेशघा जह्यासुरं भावमिमं त्वमात्मन समं मनो धत्स्व न सन्ति विद्मिषहा दस्यून्पुराषन्न विजित्य लुम्पधो मन्यन्त एके स्वजिताधिशोधश जिदात्मनो ज्ञस्य समस्य देहिनां साधु स्वमोह प्रभवातः योतिमात्रं विकत्पसे मूर्षूणां मद्दात्मन् ननुष्युर्विप्लवा गिरः यस्त्वयामन्धभाग्योक्तो मधन्यो जगदीश्वरः क्वासौ यदि स सर्वत्र कस्मात् स्तम्भेन दृश्यते सोखं विहत्तमानस्य शिरःकायात् हरामि ते गोपायेतः हरिस्वाद्य यस्ते शरणमीप्सितं एवं दुरुक्तैर्मुहुरर्धयन् रुषा सुतं महाभागवतं महासुरः खड्गं प्रहृत्योत्पतितो वरासनात् स्तम्भं तथा ढाति भलस्वमुष्टिना तथैव तस्मिन्निनदो दिभीषणो पगधं त्वजातय श्रुत्वा स्वमधाप्यमयमङ्गमे निरे स विक्रमन्ति पुत्रभदेप् सुरोजसान् सत्यं विधातुं निजभृद्य भाषितं व्यातिं चात्मनः अदृश्यधाद्भुतरूपं बुद्ध्वहन् स्तम्भे सभायां न मृगं न मानुषं स पश्यन् स्तम्भस्य मध्याधनु निर्जिहानं नायं मृगो नरो विचित्रम् अहो नृमृगेन्द्ररूपं मीमांसमानस्य समुत्तिधोग्रतो नृसिंहरूपस्तदलं भयानकं प्रतप्तशामीकरचण्डलोचनं स्फुरत्सटाकेसरजृम्बिताननं कराळदंष्टं करवालसञ्चलन् शुरान्त्रजिह्वं भ्रुकुटीमुकोल्भणम् तप्धोऽर्त्वकर्णं गिरिकन्तराद्भुत यास्त्यास्य नासं हनुभेतभीषणं दिभिः स्पृश्य कायमदीर्घपीवर ग्रीभोरुवक्षस्तलमल्पमध्यमं चन्द्रां सुगौरश्चुरितं दुरासदं सर्वनिजेतरायुध प्रवेगविद्रा वितदैत्यधानवं प्रायेण मेयं हरिणा गुरुमायिना मत स्मृतो एवं ब्रुवं स्तभ्यपधद्गतायुधो न ध नृसिंहं प्रदि दैत्यगुञ्जरः अलक्षितोऽग्नौ पतितः पदङ्गमा यथा नृसिंहौ जसिसोऽसुरस्तधा न तत् विचित्रं खलु सत्त्वदा हनन्महासुरो वृषा गतयोरु वेगया, तं विक्रमन्तं सगधं सगधं गधाधरो मघोरघं दार्श्यसुतो यदाग्रहीत् स कस्तोत्कलितस्तधासुरो विक्रीडतो यद्वदखिर्गरुत्मतः असाध्वमन्यन्तः हरुतौक सोमराघनच्छता भारत सर्वतिष्ण्यपहा तन्मन्यमानो निज वीर्य सङ्कितं महासुरः पुनस्तमासज्जद गड्गचर्मणि वेगेन जितश्रमो मृदे तंस्येन वेगं सतचन्द्र वर्मभेस् चरन्तं मच्छिद्रमुपर्यधो हरिः कृत्वा टहासं निमीलिदाक्षं जगृहे महाजवहा विष्पक् स्फुरन्तं ग्रहणातुरं हरेर् व्यालोयथा कुङ्कुलिसाक्षतत्वचं द्वार्योरुम् आपात्यधाधरलीलया न कैर्यता किं गरुडो महाविषं संरम्भ दुष्प्रेक्ष्य कराललोचनं व्यात्ताननान्तं विलहन् स्वजिह्वया अश्रुग्लवाक्तारुणकेशरानो यथान्त्रमालीद्विपहत्यया हरिः न काङ्कुरोत्पाटितकृस्तरुहं विसृज्य तस्यानुचरान् बुधायुधान् अहं समन्तान्नशस्त्रभार्ष्णिभेर्दुर्दाण्डयूतोनुपथान् सहस्रघा सटावधूता जलधा परापतन् ग्रहाश्च दुत्तृष्टिविमुष्टरोचिशा अम्भोतय स्वाः स हता विचक्षुभर् निर्क्लादबीतादिगिभाविषुकृशो शु। द्यौस्तत्क्षटो क्षिप्तभिमानसङ्कुला प्रोत्सर्पतक्ष्मा च पदादिबीडिदा शैलासमुत्पेतो अमुक्ष्य रक्मसा तत्तेजसाकं खगुभो न उपविष्टमुत्तमे नृपासने सम्भृत तेजसं विभुम् अलक्षितद्वैरतमद्यमर्षणं प्रचण्डवक्त्रं न बभाज कश्चन निशंव्यलोकत्रयमस्तगज्वरं तमादिदैत्यं हरिणाहतं रधे प्रहर्ष्य वेगोत्कलिता तथा विमानावलिभिर्नभस्थलं दिदृक्षुतां सङ्कुलमासनाकिना सुरानगाधुन्दुभयोत जग्निरे गन्धर्वमुख्या नन्तृतुर्जहुस्त्रियः तत्रोपव्रजय तत्रोपव्रजयविभुता ब्रह्मेन्द्रगिरिशादयः ऋषयः पितरः सिद्धा विद्याधरमहोरगाः मनवः प्रजानां पतयो गन्तर्वाप्सरचारणाः यक्षा किं वेतालासिद्धकिन्नराः ते विष्णो पार्षदाः सर्वे सुनन्दकुमुदादयः मूर्निबद्धाञ्जलिपुटासीनं तीव्रतेजसं ईटिरेन रसार्धूलं नातिदूराचरा पृथग ब्रह्मो वाचा नतोंस्यनन्धाय दुरन्तशक्तये विचित् प्रवीर्याय पवित्रकर्मणे विश्वस्य सर्गस्थितियसंयमान् गुणे स्वलीलया सन्ददते व्ययात्मने श्रीरुद्रौ वाचा कोपकालो युगान्तस्ते हतो सुरोल्पकः तत्सुतं बाह्युपश्रुतं भक्तं ते भक्तवत्सलहा इन्द्रौ प्रत्यानीता परम यथानस्वभागा दैत्याक्रान्तं हृदयकमलं द्वद्गृहं प्रत्यभूति कालग्रस्तं कियधितमहो नाथशुश्रूषतां ते मुक्तिस्तेषां नहि बहुमता नारसिंहापरैख्यं ऋषयवूचो त्वं नस्तपः यदात्मतेजो येनेदम् आतिपुरुषात्मगतं ससर्ज तद्विप्रलुप्तम् अमुनाद्यशरण्यबाल रक्षा गृही तव पुषा पुनरन्वमंस्ताः पितरवूच श्राद्धानि नो दि बुभुजे प्रसभं तनूजेर् दानि तस्यो धरान्न कविदीर्नवभात्य आर्चत् तस्मै न मो नृ हरये किल धर्मगोप्त्रे सिद्धावुचो यो नो गतिं योग सिद्धाम साधु रक्षार्षी यो नानादर्पं तं न प्रणतास्मो नृसिंहा विद्याधरावुचो विद्यां पृथग् धारणयानुराधां न्यक्षेधतज्ञो बलवीर्यधृप्तः स येन सङ्ख्ये पशुवत् हतस्तं माया नृसिंहं प्रणतास्म नित्यं रत्नानि स्त्रीरत्नानि हृतानि तद्वक्षः पाटनेनासां दानन्दनमोऽस्तु ते मनवऊचो मनोवो वयं दिदिजेन निदेशकारिणो दिधिजेन देव भवता कलसमुपः संहृत प्रभो करवामते किमनुसाधि किं करान् प्रजापतयूषो प्रजे सा वयं ते परे साभिसृष्टा नयेन प्रजा वै भिन्नवक्षानुसेते जगन्मङ्गलं सत्त्वमूर्तेऽवताराः गन्धर्ववूचो वयं विबो ते नटनाट्यगायका येनात्मसाध्वीर्य बलौ स एष नीतो भवता दसामि मां किमुत्पतस्त कुशलाय कल्पते शरणावूषु हरे ध्वाङ्घ्रिपङ्गजं भवाभवर्गमाश्रिताः यदेश साधु हृश्चयस्त्वया सुरः समापितः वयमनुचरमुख्या कर्मभिस्ते मनोज्ञैस् तकैकदिति सुतेन प्रापिता वाहकत्वं स वयं किं पुरुषास्त्वं तु महापुरुष ईश्वरः वैतालिकावूषु सभासु सत्रेषु तवामलं यशो गीत्वा सपर्यां महतीं लभामहे यस्तां व्यनैक्षिद् वृषमेश दुर्जनं दिष्ट्याहतस्ते भगवन्यतामयः किन्नरावूचो वयमीश किन्नरगणास्तवानुका दिधिजेन विष्टिममुनानुकारितः भवता हरे सवज वसाधितो नरसिंहनाथ विभवाय नो भव विष्णुपार्श्व तूचो अद्यैतत् हरिनररूपमद्भुतं ते दृष्टं नः शरणसर्वलोकशर्मा सोऽयं ते विदि करईश विप्रसप्तस्तस्येदं निधनमनुग्रहाय विद्मः इति श्रीमद्भागवते महापुराणे सप्तमस्कन्दे अष्टमोऽध्यायः सर्वत्र गोपिका जीवनस्मरणं गोविन्दा गोविन्द सद्गुरुनाथमहराज के जय